मुद्गलपुराणं खण्डं नयन योगचरितम् अध्यायं सिक्स्टीन् भक्तिरहस्यवर्णनयोगं श्रीगणेशाय नमः दक्ष उवाच धन्योहं कृतकृत्योहं कृतस्त्वद्यमः मदे त्वदाज्ञावशगस्वामिन्गुप्तं ग्रन्थं करोमि ते अधुना वद मे भक्तिम् गणेशस्य तया परम् भजिष्यामि विशेषेण सदा भक्तिपरायणः मुद्गल उवाच साङ्घ्ययो गौ प्रजानाथ शृणुते कथयाम्यहम् ताभ्यां युक्तस्ततो भक्तिम् करिष्यसि परां मुदा चित्तम् पञ्चविधम् प्रोक्तम् पञ्च सङ्ख्याविवर्जितं कुरुचिन्तां मनौलीनभावेन त्वं सुयोगदः एतत्सौख्यं समाख्यातं गणेशाभेददायकं तेन योगी भवे सद्यशान्तियुक्तो विशेषतः पञ्च चित्तोद्भवेषु भोगेश्वसि भोगेष्वसि सुसंस्थितः बिम्बरूपेण तान् भुङ्क्ष्व शान्त्या रसमन्वितः चित्तेषु चित्तभूतेषु कर्मज्ञानादिकं भवेद तद्गणेशार्पणं सर्वं कुरुत्वं नित्यमादराद स्वधर्मसंस्थितं देहं चित्तं शान्तिसमन्वितम् कुरुष्व सततं दक्ष ब्रह्मभावपरायणः अयं योगसमाख्यातशास्त्रे वै सर्वसम्मतः वेदेषु पुराणेषु ब्रह्मभूयप्रदायकः साङ्ख्ययोगौ समाराध्य भजस्वगणनायकं योगाकारं समाध्याय तन्निष्टस्तत्परायणः श्रवणं गणनाथस्य गुणानां नित्यमादराद कीर्तनं तस्य तद्वक्त्वं कुरुष्वैतद्रसैर्युदं गणेशस्य च भावस्य विस्मृतिं मा कुरु प्रभो गणेशपादजमोहं धारये सत्यभावतः साङ्गं गणेश्वरस्यैव कुरु सर्वं विशेषतः गणेशा परम श्रेष्ठ तस्माको भव गाणपत्य मगसम कुरु सर्वदा साक्षीप गणेशान ज्ञा खस्थम भजस्व गणेशानोखं भावयस्व निरम भज संयुर् बाह्यान्तरं गणेशार्धं कुरुत्वं कर्म चादराद न वर्थाखण्डभावेन पूर्णभक्तो भविष्यसि अथो च दुर्विधां भक्तिं कथयामि शृणुष्वतां कायिकां वाचिकां पूर्णां मानसीं नित्यदा कुरु तथा सांसर्गि किं दक्ष तस्याश्चिह्नं वदाम्यहं गणेशार्थं सदा देहश्रमं कुरु महामदे गणेशभावहीनां यां वाचं मा त्वं वद स्वतां गणेशचिन्तनं भावकस्य वा गणेशभक्तियुक्तानां गतिं कुरु सर्वदा एवं भजस्वभक्त्या त्वं भक्त राजो भविष्यसि भक्तिस्साद्विविधा दक्ष मानवै क्रियते परा पाखण्डसंयुधापूर्णा देवप्रीत्यर्थमेव वा देहे विषयभोगार्थं भजनं सम्प्रवर्तते पाखण्डिनां सदा दर्श लोकमोहकरं परं पाखण्डभजनस्यैव चिह्नं मुख्यं वदाम्यहं तच्छृणुत्वं हितार्थाय लोकानां लोकतारक सर्वाहङ्कारनिर्मुक्तपाखण्डी दृश्यते जनैः जनामोहयुतायेन भवन्ति भजनं यदः यत्र येषां रुजिर्दक्ष यादृशी सदा करोति तत्र यत्नेन सर्वभावं प्रदर्शयन् येनैव विषयाणां च प्राप्तिसं जायते परा तादृशं भजनं तस्य परं सर्वदा अथवा चैकनिष्ठः स भवति स्वदेवभक्तान् सम्मोह्य भुङ्गे दुष्टोर्धलालसः स्वदेवभजने सकदा जनास्वल्पमदो बहु तेषां रुचिप्रमाणेन भवदि भजनं जनाना मोहदा मोहदाभक्तिकथिदा ते प्रजापदे पाकण्डिभिः सदा पूर्णा सेव्यते स पाखण्डसंयुता नित्यं भक्तिं कुर्वन्ति शाश्वतीं चाण्डालास्ते मदाशास्त्रे देवानां दुःखदायकाः सत्यसङ्कल्पसिद्ध्यादे संयुतं देवमुत्तमं संगृह्यभिक्षुकं भिक्षुकं कुर्वदेधप्रगामिनः अध देवप्रियां भक्तिं शृणुष्व सुसमाहितः विचार्य हृदये भक्तिं कुरु दे देवतुष्टये सदा देवपरो भूत्वा भजते नान्यमानसः लोकानां तत्र सम्भूयात् रुचिर्वा ह्यरुचिः कदा लोकानिन्दन्ति तं भक्तमुत्तमाश्च स्तुवन्ति ननादृत्य देवस्य प्रीत्यर्थं भजते सदा स्वकीये हृदये सोऽपि विचार्य गुरुदे सदा भक्तिं यां तां प्रजानादि देवस्तस्य हृदि स्थितः यदा दैवस्य मार्गस्यापमानं वा ह्यनादरं कुर्वन्ति तान् परित्यज्य तदा भजति सर्वदा लोकानां रुदितं तस्य भजनं जायते कदा कदा तेषां विरुद्धं वा भक्त्या तद्देव तुष्टितम् अनेन विधिना दक्ष भजस्वगणनायकं गाणपत्यो न सन्देहो भविष्यसि परात्परः पञ्चचित्तेषु यज्ञानं तद्विद्धिविषयात्मकं तत्र रुचिविहीनस्त्वं भजस्व गणनायकं सदा गणेश्वरे दक्ष रसोत्पत्तिः प्रजायते चित्तस्य नान्यभावेषु यस्य भक्तः उच्यदे, उच्यते ये तद्भक्तिरहस्यं ते कथितं भक्तिदायकं समासेन भजस्वैव गणेशं ब्रह्मनायकम् इमं योगं न रो यस्तु शृणुया श्रावयेत्परं योगिभ्यो वान्यजन्तुभ्यः स ईप्सितमवाप्नुयाद नानेन सदृशं किञ्चिद्यो गतं शास्त्रसम्मतम् अस्य श्रवणमात्रेण ब्रह्मीभूतो भवे नरः महापापोपपापेभ्यो मुच्यते पठनात् किल श्रवणादस्य योगस्यान्ते ब्रह्म प्राप्नुयात् परम् पुत्रपौत्रादिसंयुक्तो धनधान्यसमन्वितः आरोग्यादिसमायुक्तो लभेदन्ते परं पदं सकामको लभेद्भोगान् पठनादस्य निश्चितम् अन्दे ब्रह्ममयो भावी श्रवणान्नात्र संशयः योगगीतां पठेद्यस्तु निष्कामशृणुयादधो स विघ्नहीनतां प्राप्य ब्रह्मीभूतो भविष्यति योगगीतां पठेद्यस्तु स भवेशाधिसंयुधः शृणुयाद्ब्रह्मभूतश्च ज्ञानवान् स्थितिसंयुधः कर्मनिष्ठैरियं सेव्या तपोनिष्ठैः प्रजापदे तत्तत्सिद्धि समा इरिहांदे सामयुक्तरी नित्यं निठे दीमा गीता स गणेशोदरात दर्शना पावनो नृणि प्रदायक यकम दिखम वि कालम यठेदीश्यम गणेश भवत्सर्वदायक शुक्लचुर्ध्योस्त पठे देदाम नरोत्तमः स भुक्त्वा सकलन् भोगानन्दे ब्रह्मलभेत् परम् अथ वा शुक्लजायां स ज्येष्ठे माखे च कृष्णायां पठे दीप्सितमाप्नुयाद अथ वा गणराजस्य तीर्थक्षेत्रादिके गतः पठेदिमां स्वभावेन स ईप्सितमवाप्नुयाद वेदशास्त्रपुराणेषु यत्सारं समुदाहृदं योगगीतामयं तुभ्यं सर्वसिद्धिप्रदायकम् ओं तत्सदिति श्रीमदान्त्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे नवमे योगजदिदे योगजरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चितभून भक्तिरखस वर्णन योग षोडशोध्याय गीतासूपनिष्त्सु सुगमसु द्वादशोध्याय